अथैकादशाधिकशततमः सर्गः वसिष्ठः स तदा पुरुषस्येह जातस्य भवन्ति गुरवः सदा आचार्यश्चैव काकुत्स्थपिता माता च राघवा जनयति पुरुषम् पुरुषर्षभा प्रज्ञाम् ददाति चाचार्यस्तस्मात् स गुरुरुच्यते स तेऽहम् पितुराचार्यस्तव चैव परन्तप मम त्वम् वचनम् कुर्वन्नातिवर्तेः सताम् गतिम् इमाहि ते परिषदो ज्ञातयश्च नृपास्तथा एषु तातचरम् धर्मम् नातिवर्तेः सताम् गतिम् वृद्धाया धर्मशीलाया मातुर्नार्हस्य वर्तितुम् अस्या हि वचनम् कुर्वन्नातिवर्तेः सताम् गतिम् भरतस्य वचः कुर्वन् याचमानस्य राघव आत्मानम् नातिवर्तेस्त्वम् सत्यधर्मपराक्रम एवम् मधुरमुक्तः स गुरुणा राघवः स्वयम् प्रत्युवाच समासीनम् वसिष्ठम् पुरुषर्षभः यन्मातापितरौ वृत्तम् तनये कुरुतः सदा न सुप्रतिकरम् तत्तु मात्रापित्रा यथाशक्तिप्रदानेन स्वापनोच्छादनेन च तथा संवर्धनेन च स जनयिता मम आज्ञापयन् मान्यत्तस्य न तन्मिथ्या भविष्यति एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् उवाच विपुलोरस्कः सूतम् परमदुर्मनाः इह तु स्थण्डिले शीघ्रम् कुशानास्तरसारथे आर्यम् प्रत्युपवेक्ष्यामि यावन्मे सम्प्रसीदति निराहारो निरालोको धनहीनो यथा द्विजः स तु राममवेक्षन्तम् सुमन्त्रम् प्रेक्ष्य दुर्मनाः कुशोत्तरमुपस्थाप्य भूमावेवास्थितः स्वयम् तमुवाच महातेज रामो राजर्षिसत्तमः किम् तात प्रत्युपवेक्ष्यसे ब्राह्मणो ह्येकपार्श्वे नरान् रोद्धुमिहार्हति न तु प्रत्युपवेशने उत्तिष्ठ नरशार्दूलहि त्वैतद्दारुणम् व्रतम् पुरवर्यामितः क्षिप्रमयोऽध्याम्याहि राघव आसीनस्त्वेव भरतः पौरजानपदम् उवाच सर्वतः प्रेक्ष्य किमार्यम् नानुशासथ ते तदोचुर्महात्मानम् पौरजानपदा एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति अत एव न शक्ता स्मोऽ व्यावर्तयितुमञ्जसा तेषामाज्ञायवचनम् रामो वचनमब्रवीत् एवन्निबोधवचनम् सुहृदाम् धर्मचक्षुषाम् एतच्चैवो भयम् श्रुत्वा सम्यक् सम्पश्य राघव उत्तिष्ठत्वम् महाबाहो अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् शृण्वन्तु मे परिषदो मन्त्रिणः शृणुयुस्तथा न याचे पितरम् राज्यम् नानुशासामि मातरम् एवम् परमधर्मज्ञम् नानुजानामि राघवम् यदि त्ववश्यम् वस्तव्यम् कर्तव्यम् पितुर्वचः अहमेव निमत्स्यामि चतुर्दशवने धर्मात्मा तस्य सत्येन भ्रातुर्वाक्येन विस्मितः उवाच रामः सम्प्रेक्ष्य पौरजानपदम् जनम् विक्रीतमाहितम् क्रीतम् यत्पित्रा जीवता मम न तल्लोपयितुम् मया वा भरतेन वा उपाधिर्न वनवासे जुगुप्सितः युक्तमुक्तम् च कैकेय्यापित्रा मे सुकृतम् कृतम् जानामि भरतम् क्षान्तम् गुरुसत्कारकारिणम् सर्वमेवात्र कल्याणम् सत्यसन्धे महात्मनि अनेन धर्मशीलेन वनात् प्रत्यागतः भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः वृतो राजा हि कैकेय्या मया इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकादशाधिकशततमः